श्रीहरये नमः अथ विंशोऽध्यायः श्रीशुक उवाच बलिरेवं गृहपते कुलाचार्येण भाषितः तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुं बलिरुवाच सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमे अर्थं कामं यशोवृत्तिं यो न बाधेत कर्हि चेत् स चाकं वित्तलोभेन प्रत्याचषे कथं द्विजं प्रतिश्रुत्य दधामी ते यथा न सत्यात् परो धर्म इति कोवाच भूरियं सर्वं सोढुमलं मन्ये रुतेलीकपरं नरं नाहं बिभेऽपि निरयात् नाधन्यात धन्यातसु कार्णवात् न स्थानश्च वनान् मृत्यो यथा विप्रलम्बनात् यद्यद् दास्यति लोकेस्मिन् सम्परेतं धनादिकम् तस्य त्यागे निमित्तं किं विप्रस्तुष्येन तेन चेत् शयकुर्वन्ति भूतानां साधवो दुष्यजाशुभिः तद्यङ्क्षिभिः प्रवृत्तय को वि कल्पोधरादिषु यैरियम्बुभुजे ब्रह्मन् दैत्येन्त्रैः अनिवर्तिभिः तेषां कालोग्रसील्लोकान् न यशोधिगतम्भुवि सुलभायुतिविप्रश्ये ह्यनिवृत्तास्तनुत्यजः न तथातीर्थ आयाते श्रद्धयाये धनत्यजः मनस्विन कारुणिकस्य शोभनं यतर्तिकामोपनयेन दुर्गतिः कुतः पुनर्ब्रह्मवितां भवातृशां ततो वठोरस्य दतामि वाञ्छितं यजन्ति यज्ञक्रतुभिर्यमादृतां भवन्त आम्नायभिधानकोविदाः स एव विष्णोर्वरदोऽस्तु वा परो दास्यामि अमुष्मै शितिमीप्सितां मुनें यदप्यसाधर्मेण मां पद्नीयातनाघसं तथाप्येनन्नहिंसिष्ये भीतं ब्रह्मतनुं रिपुं एष वावुत्तमश्लोको न जिका सति यद्यशः हत्वा मयीनां एवम् अश्रद्धितं शिष्यम् अनादेशकरं गुरुः सशापदैव भ्रजित सत्यसन्धं मनस्विनम् पण्डितमानिज्ञोष्यस्मधुपेषया मच्छासा निधिगोयस्त्वमचिरात् प्रयस्य से एवं सप्त तत्यान्तचलितो महान् वामनाय दधा वेनाम् अर्चित्वोदगपूर्वकं विन्ध्यावळिस्तदागत्य पत्नीजालकमालिनी आनिन्ये कलसंहैम मवने जन्यभामृतं यजमानस्वयं तस्य श्रीमत्पादयुगम् मुधा अवनिज्यावहन्मूर्नि तदपो विश्वपावनीः तदा सुरेन्द्रं दिवि देवता गणा गन्धर्वविद्याधरसिद्धचारणाः तत्कर्म सर्वेपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषूर्मुदान्विताः ने दुर्मुहुर्धुन्धुभयसहस्रसो गन्तर्व किं पूरुष किं तद्वामनं रूपमवर्धत अद्भुतं हरे अनन्तस्य भूकं दिशोऽर्ध्यौर्विवरपयोधय तिर्य रुधे बारुषयो यदा सत काये बलिन्तस्त्य महाभिभूते सकर्त्विगाचार्यसदस्य एत ददर्श विश्वं त्रिगुणं गुणात्मके बोधेन्त्रियार्ताशय जीवयुक्तं रसामचष्टाङ्ग्रिदलेत महीमहीद्रान् पुरुषस्य जङ्घयोपधो जानुनी विश्वमूर्ते भूर्भोर्गणं मारुतम् इन्द्रसेनः सन्ध्यां विभोर्वाससि गुह्य ऐषत्प्रजापदिञ्जगने आत्ममुख्यान् नाभ्यां न भक्कुक्षिशु सब्दसिन्धोन् उरुक्रमस्योरसि चर्षमालां हृद्यङ्कधर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य तेन्धुं श्रियं वक्षस्य अरविन्दहस्तां कण्ठे च सामानि समस्तरे इन्द्रप्रधानमरान्बुजेषु तत्कर्णयोकगुबोध्यौश्च मूर्ध्नि केशेषु मेघाश्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निं वाण्यां जलेसं भ्रुभोर्निषेदं च पक्ष्मसु अगश्च रात्रिं च परस्य पुंसो मन्यं ललाटे धरयेऽवलोभं स्पर्शे च कामं नृपरेत सोऽम्भ पृष्ठे त्वधर्मं यज्ञं छायासु हसिते च मायां तनूरोहेष्वोषधिजातयस्य नदीश्च नाडीषु शिलानकेषु बुद्धावजं देवगणान् ऋषींश्च प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्शवीरः सर्वात्मनि दम्भुवनं निरीक्ष्य सर्वे सुराकस्मलमापुरङ्ग सुदर्शनं चक्रम् असह्यते धनुश्च सार्गं स्तनयित्नुघोषं पर्जन्यघोषो जलजः विष्णुगता तरस्विनी विद्यातरोऽसि सतचन्द्रयुक्तस्तूणोत्तमा वक्षय सायकौ च सुनन्दमुख्या स्फुरत्किरीडाङ्गतमीनकुण्डल श्रीवत्सरत्नोत्तममेकलाम्बरैः मधोव्रतस्रघ्वनमालयावृतो रराजराजन् भगवानुरुक्रमः क्षितिं पदैकेन भलेर्विचक्रमे नभः शरीरेण पदं द्वितीयं क्रमतस्त्रिविष्टपं नवैतृतीयाय ददीयमण्वपी उरुक्रमस्याङ्घ्रि उपर्युपर्यथो मकर्जनाभ्यां तपसः परं गतः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे विंशतितमोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जयी